त श्रीनटराजकर्णरञ्जकम् चित्रं वडतरोर्वोले वृद्धा शिष्याद्गुरुर्युवा गुरोस्तु मौलं व्याख्यानम् शिष्यास्तुच्छिन्न संशया सिन्धिमिधि मिधिमिशब्दैः बन्धुरपदमन्दरम् नटन्तम् झञ्झन झन झन रावा रञ्जितमणिमण्डनम् शिवम् सेवे तत्ततोऽधिक्कतोतथा तैतथै दोङ्गतद्वागतेर्नद्दशब्दाल्मुहुः उच्चरन् हस विन्यासचञ्चन्मुखः सन्ननतस्वयं श्री भवानी पतिः तापसां तापसानन्तरा देवता देवता देवताश्चान्तरा तापसा एवमादृत्य वागेश्वरादिस्थितौ सन्ननर्तस्वयं श्रीभवालीपतिः न वरं पुरमस्ति पौण्डरीकात् शिवगङ्गासदृशी न कापि सिन्धुः अभिहेमसभानिभा न गोष्ठी नटराजादधिको न कोऽपि देवः विभूतेरनुमात्रेण कालमनुलेपनम् रोम रोम भवेल्लिङ्गम् शिवालयं। शिवालयम् तेजोरुद्रमिदम् शिशेन जगतो रक्षार्थमुत्पादितम् भूतप्रेतपिशाचरोगशमनम् ग्निरुद्रा स्वयम् इष्टार्थप्रदमिष्टलोकगति कृते सिद्ध्यष्टकापादलम् भस्मेकं यदि निर्मलम् गुरुपालब्धम् सदा रक्षतु शिवाच्युत भगे वृक्षे च श युगे रवौ कन्याकुम्भचतुर्दश्या सिते स्नानम् सभावते भगवन्भूतभव्येष न जानेहि तमात्मनः त्वमेव सञ्चिन्त्य मे दातुमर्हसि पदप्रचुर किङ्किनी गिणि गिणि ध्वनिभ्राजितम् हरिप्रमुख देवता दुर्दल समृदङ्गादितम् तैतधैतधरवानुसार्यक्रमम् सदादिति मङ्गलम् दिशदुशाम्भवं ताण्डवम्